आमन्त्रयध्वं राष्ट्रेषु ब्राह्मणान् भूमिपानथा विशश्च मान्यान् शूद्रांश्च सर्वानानयतेति च वैशम्पायन उवाच समाज्ञप्तास्ततो दूताः आनयंश्चापरान्द्रुतं तथा परा न पि नरानात्मनः शीघ्रगामिनः ततस्ते तु यथा कालं गुन्तीपुत्रं युधिष्ठिरं दीक्षयाञ्चक्रिरे विप्र भारत दीक्षितः स तु धर्मात्मा धर्मराजो युधिष्ठिरः जगामयज्ञायतनमृतो विप्रैः सहस्रशः भ्रातृभिर्ज्ञातिभिश्चैव सुहृद्भिः सचिवैः सह क्षत्रियैश्च मनुष्येन्द्रैर्नानादेशसमागतैः अमात्यैश्च नरश्रेष्ठो धर्मो विग्रहवा आ जग्म्रह्मणस्त विषयभ्यतस्तुनिष्णा वेद धर्मराजस्य से बह्वन्नाच्छादनैर्युक्तान् सगणानां पृथक् पृथक् सर्वर्तुगुणसम्पन्नान् शिल्पिनोऽथ सहस्रशः तेषु ते न्यवसन् राजन् कथयन्त कथा बह्वीः पश्यन्तो नटनर्तकान् भुञ्जतां चैव विप्राणां वदतां च महास्वनः अनिशं श्रूयते तत्र मुदितानां महात्मनाम् दीयताम् दीयतामेषाम् भुज्यताम् भुज्यतामिति एवं प्रकाराः सञ्जल्पाः श्रूयन्ते स्मात्र गवांशतसहस्राणि शयनानां च भारत रुक्मस्य योषितां चैव धर्मराजः पृथग्दौ प्रावर्ततैवं यज्ञः स पाण्डवस्य महात्मनः पृथिव्या मे कवीरस्य त्रिविष्टपे ततो युधिष्ठिरो राजा प्रेशयामास स नकुलं न पुरं भीष्माय पुरुषर्षभः द्रोणाय धृतराष्ट्राय विदुराय कृपाय च भ्रातॄणां चैव सर्वेषां ये नुरक्ता युधिष्ठिरे इति श्रीमहाभारते सभापर्वणि राजसूयपर्वणि राजसूयदीक्षायां त्रयस्त्रिंशोऽध्यायः